मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं फोर् दक्षचरितं श्रीगणेशाय नमः सूत उवाच कैलासशिखरे रम्ये शिवश्चिन्तापरो भवद अनाहूदा गदा देवी द्विगृहे किं भविष्यति वटमूले समासीनो नन्दिकेशादिभिर्वृतः योगिभिः सेवितस्तत्र कथा नानाप्रवर्तयन् नानापशकुनं तत्र बभूवादिभयानकं स्तुतिभिस्तेन सर्वे ते उत्पादा शङ्कया भृशम् यतस्मिन्नकरे तत्र नारदो मुनिराययौ तं प्रणम्यस्थितो योगी शिवं कल्याणदं परं तथा वसरमासाद्यप्रोवाच कठिनं वचः धन्यासदित्रिभुवने न समाकामिनी तया सदित्येवजयन्नाम कृतं तत्सार्थकं परं शिवनिन्दां समाकर्ण्य तृणवज्वलितं वभुः नारदस्य वचश्रुत्वा वज्रसारमयोपमम् उवाच तमृषिं शम्भुक् नु देवी मृदा मुने न किञ्चिदुक्तवांस्तत्र शम्भुक्रोधभयाकुलः शोकाग्निर्मां दहेत् किं वा ततो देवोऽन्वबुध्यत शोकसादरमग्नोऽभूत् किं मां त्यक्त्वा गदाशिवा शक्तिहीनकृदोऽहं वैश्यशक्त सर्वकर्मणि निःश्वासपरमोऽप्यासीद्धर्तमङ्गं गतिं त्युति जीवितेन च किं कार्यम् देहत्यागं करोम्यहम् योगिभि सान्द्वितो देवो न किञ्चित् सुखवानभूद शिवश्चिन्तापरो भूत्वा विचारं कृतवान्हृदि अहो विघ्नाकुलोकं वैकृतो विघ्नकरेण च गर्वेध परमैश्वर्याकृतं गर्वस्य खण्डनम् अतुलाशक्तिरर्धाङ्गे जगन्मादास्तिमेत् सदा अर्धनारीश्वरोकं च नवियोगो वियोगो मम क्वचिद शक्तोऽहं प्रभुरीश्वरः अखण्डैश्वर्यमोहेन विघ्नराजं च नाम स्मरम् इति गत्वा स्वयं शम्भुर्मनसा गणपं भजन् भक्त्र्यैकचेदसा चैवध्यात्वा रूपमनुत्तमं चतुर्भुजं महाकायं गजवक्त्रं महोदरं। मुकुटेन विराजन्तं कर्णकुण्डलधारिणं रत्नमालाधरं पूर्णं नाभिशेषविभूषितं किङ्किणीकायुक्तपादं क्वणचरणनूपुरं सिद्धिबुद्धियुधं चिन्तां मणिभूषितवक्षसं एकचित्तेन चध्यात्वा साधयत्तं समाधिना तुष्टावविविधैर्वाक्यैर्गणेशं ब्रह्मरूपिणं निराकारं च साकारं विघ्नराजं हृदि स्थितं शिव उवाच नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे विघ्नकर्त्रे गणेशाय विघ्नानां पदये नमः लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणि त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणि नैर्गुण्येन च वै साक्षाद्ब्रह्मरूपधराय च नमो नमो बन्दहन्द्रे भक्तानां पालकाय ते अभक्तेभ्यस्तमोदाय नानाभयकराय च हे रम्पायनमस्तुभ्यं वेदवेद्याय शाश्वते अनन्ताननरूपायानन्दबाहु अङ्घ्रिकायते अनन्त करकर्णाय नन्दोदरतराय ते नमो नमस्ते गणनायकाय ते अनादिपूज्याय च सर्वरूपिणे अखण्डलीलाकरपूर्णमूर्तये महोत्कटायास्तु नमो महात्मने आदौ च निर्माय विधिं रजोमयं तेनैव सृष्टिं विदधासिदेव सत्त्वात्मकं विष्णो मधो हि मध्ये निर्माय पासि त्वमखण्डविक्रम अन्धे तमोरूपिणमेव सृष्ट्वा शम्भुस्वशक्रिया हरसि त्वमाद्य ेवंविधं त्वां प्रवदन्ति वेदाः तं वै गणेशं शरणं प्रपद्ये मायामयं वै गुणपं तु सृष्ट्वा तस्मात्पुरस्त्वं गणराजजादौ स्वानन्दसंज्ञे नगरे विभासी सिद्ध्या जबुद्ध्या तन्त्वां गणेशं शरणं प्रपद्येष्टितं सदा हृत्सु च योगिनां वै वेदैर्नवेद्यं मनसानलभ्यं तं वक्रतुण्डं हृदि अर्धनारीश्वरत्वं यत्तद्गदं मेधुना प्रभो शक्तिहीनत्वमापन्नो नष्टवत्कर्मणा कृतःर्ययुधा देवी सा गता गणपप्रभो अनीश्वरपदम् प्राप्तं मम वै देवदेव भोः सदा शम्भुः सगुणः सर्वभावविद शक्रियायुक्तो यदा स्वामिन्नधुना किं करोम्यहं शक्रिही नः पदागन्तुं न अतस्त्वं कृपया देव शक्तं मां तदप्रादुरभूतस्य पुरतः गणाधिपः उवाच शङ्करं तत्र हर्षयन् श्लक्ष्मया गिरा अहो चमाम् च मां शम्भो किं शोचसि महेश्वर भवितासि सशक्रिस्त्वं मद्वाक्यानात्र संशयः अहमेवेश्वरो देवो येको ब्रह्माण्डमण्डले तेन गर्वेण युक्तस्त्वं सविघ्नसहसा कृतः अधुना ते गदोमोहो मदीया स्मृतिरा गदा तेनाहं प्रसन्नोऽस्मिन् संशयः हिमाचलसुधादेवी भविष्यदिनसंशयः वृणोषि त्वं सतीं वै पार्वतीं च पुनः शिव रमसे च तया सार्धं मद्भक्त्या भावितो दृढम् ईश्वरसहशक्तिस्त्वं मत्प्रसादात्सदा भव स्मृतमात्रस्तवाग्रेहम् प्रत्यक्षस्य सदाशिव इति देवस्तत्रै वरम् देवस्तत्रैवान्दरधीयत ततश्च शङ्करः क्षुब्धशक्तो जातस्वकर्मणि जडामास्फालयामास तस्माज्जादो महाबाहोर्वीरभद्रस्त्रिमस्तकः त्रिपदशूलवान् साक्षान्मृत्युरूपो महाद्युतिः शङ्करप्रणनामाधप्राञ्चलिः सन्पुरस्थितः आज्ञां कुरु महादेव दासोऽहं ते वशे वचनं तस्य संसृत्य प्रहृष्ट शङ्करो ब्रवीद सयज्ञस्य च हरणं कुरु साम्प्रतं तदाज्ञां शिरसा धृत्वा अट्टः समधाकरोत् तेन त्रिभुवनं सर्वं कम्पिदम्भयविह्वलम् तदो निर्गम्य वेगेन शरीरान् निर्ममे महान् नानारुद्रानपारांश्च तैर्वृतः स गदोमखं तमन्वयुर्गणः केशा परे केशादयोपरि क्षुभिधा क्रोधसंयुक्ता ब्रह्माण्डाशन सन्निभाः दुर्निमित्तानि सर्वाणि दक्ष गेहे भवंस्तदा संहितामुनयो देवः किं भवेदिति विह्वलाः यदस्मिन्नन्तरे तत्र दक्षयज्ञे महाबलः वीरभद्रो भयानकः नन्दीभृङ्गरिडिर्भृङ्गी पुष्पदन्तमुकास्तथा आगधा क्रोधदीप्तास्य भक्षयन्तो यधान्दकाः सहसा वेगदसर्वे मारयन्त इदस्तदः पलायन्त च दिक्प्रान्ते दक्षस्यानुचरास्तदा यज्ञमण्टपमासाद्य बभञ्जुस्तत्क्षणेन च देवान् सर्वान् मुनींश्चैव पीडयन्तः सुदारुणाः ऋषिपत्नीर्दधुस्तत्र सहस्रशः अताडयन् महावीर्या हाहाकारा प्रवर्तिताः हा कथं त्वसाधुपदयो भवतीभिर्वृधा खलु शिवद्वेषकरा दुष्टास्तस्य प्राप्तम् महद्फलं येवमूचुर्हविद्रव्यं बाभक्षुस्ते प्रहर्षिताः वेदिकायां प्रचक्रुस्ते वित्सर्गं मूत्रणं तथा जगाम भगवांस्तत्र शङ्करक्रोधसंयुधः धनोर्बाणधरसाक्षात् प्रलयाग्निरिवोद्धितः तत्र युद्धमभूद्घोरं देवानां रुद्रचारिणां स्वयं च युयुधे शम्भुशस्त्रास्त्रैर्मभेदिभिः पूष्णो दन्तांश्च नाराचैर्भेदयामास शङ्करः भगस्य नेत्रमुन्मूल्य पाडयामास संयुगे धर्मं धृत्वा महावीरो नन्दिकेशो ब्रवीत्तदा को धर्मो वदरे दुष्ट शिवहीने मखे खल कश्यपं धृतवांस्तत्र भृङ्गितेजस्विनां वरः वरुणम् ताडयामास पुष्पदन्तश्च वीर्यवान् भैरवेणधृतस्तत्र देवेंद्रो मूर्च्छिधकृतः वीरभद्रो बलादक्षं पादयामास भूतले एवं प्रमधिदे यज्ञे शङ्खचक्रगदाधरः युयुधे विष्णुरव्यग्रो महाबलसमन्वितः शस्त्रास्त्रायर्बहुभिष्टेन मर्दिदा बलवत्तराः रुद्रा भूदपिशाचाद्या हाहाकारं प्रचक्रिरे तं दृष्ट्वा सहसा शम्भुर्हृदि ध्यात्वा गणाधिपम् बाणैस्तं हृदि संविद्य पादयामास भूतले पुनः संज्ञां समासाद्य स्वास्त्रं नारायणात्मकं मोचयामास गोविन्दो जगत्संहारकारकं तदशम्भोर्म मोचाभिस्वास्त्रं पाशुपदमहत ते उभे व्योम्नि चात्यन्तं युयुधादे परस्परं तस्माज्जादो महान् अग्निर्ददाः पृथिवीमिमां भयक्रान्तं त्रिभुवनं जादं तत्र मृदोपमं एतस्मिन् समये तत्र वीरभद्रेण कल्पितं पशुरूपं शिरश्चित्वा दक्षस्याग्नौ हुतं ततः रुद्रैर्नानाविधैकोलाहलस्तत्र प्रार्थितः चिन्नभिन्ना सुराजादास्त्राधारं लेभिरेन ते मुनयोपि भयोद्विघ्ना व्यद्रवंस्तु दिशो दश पिशाचादिभिराकृष्टाश्चकृशुश्चादिदारुणम् विष्णोना तत्र चक्रम् वैभ्रामिदम् क्रोधधारिणा कृतान्तसदृशम् मुक्तम् शम्भो सन्निधिमागतं चक्रम् तच्छङ्करम् दृष्ट्वा तम् तत्र संस्थितं तेन क्रोधपरीताङ्गशिव शूलं समाददे शूलमुद्यम्य तं विष्णुं हन्तुं यावत् तत्रा काशोद्भववाणी वारयामास न हन्तव्यो हरिः शम्भो त्वया पाल्योऽयमप्युत जहि कोपं महादेव शिवाय सततं नमः तत्रा जगाम सहसा स्वयम्भूस्तं न्यषेधयद मा कुरुष्वधं शम्भो विष्णोः संहार कारक नमः शिवाय शान्ताय शिने शम्भवे नमः महादेवाय रुद्राय पशुनां पदये नमः संहारूपि त्वं साक्षादकाले किं प्रवर्तसे जहि कोपमहाबाहो नमस्ते परमेश्वरा ब्रह्मणा देवप्रशान्दो देवप्रशान्तो भून्महामुने तस्मिन् काले स्वयं विष्णुर्ब्रह्मणाज्ञापितः प्रभुः शिवाय नमनं कृत्वा स्थितः सं वृषभध्वजम् शान्त उर्वरिदं यज्ञे हविर्द्रव्यं च यत्प्रभो रुद्रभागसविज्ञेयो गृहाणत्वं सदाशिव विघ्नेशमायया भ्रान्ता दक्षाद्या सततं शिव मोहितानां विशेषेण द्रष्टव्यं न प्रचेष्टितम् अतस्त्वं कृपया देवप्रसन्नो भवशङ्कर सर्वेभ्यः सुखदाता वैयज्ञं तं पुनरारभ देवानां च मुनीनां च स्त्रीणां दासादिजीविनां यथा स्थितं रूपं तादृशं कुरु शङ्कर भगस्स नेत्रसंयुक्तः पूषा वै पिष्टभुकृदः देवाश्च मुनयः सर्वे स्त्रियो दासादयस्तथा यथापूर्वं कृतास्तेन युक्तारूपेण तेजसा गददुःखाश्च सर्वेते ते भवन् पुनः दक्षस्य मस्तकं तत्र दग्धं वै जादवेदसि तत् ज्ञात्वा शङ्करो देवो भृङ्गिणं प्रत्युवाचः गच्छानयतं हत्वा य आदौ दृश्यते तस्य मस्तकमे दत्तु भवेद् दक्षस्य मस्तकम् तदा तेन पुरो दृष्टो ह्यजः परमशोभितः तं हत्वा तच्चिरस्तत्र समानीतं च भृङ्गिणा तदेव योजयित्वा तमजीवयत शंकरः ससद्य सद्य उद्धितस्तत्र दक्षोजमुखदां गदः ब्रह्मणा प्रेरितो दक्षः पुनस्तुष्ठाव शङ्करं गदमानो महाबाहुः भक्त्या सर्वेश्वरं ततः दक्ष उवाच नमामि शङ्करसाक्षाद्यदाधारमिदं जगद कालरूपं यथा कालं बोधयामासतं शिवम् कालेन फलमूलानि जायन्तेनादिकानि च शीतोष्णसमभावश्च सदा कालेन जायते सूर्यस्तपदिकालेन ज्योतिषां गण एव कालन जायते वृषिना वृष्टिस्था विभो कालन सृज्य सृष्टिर्ब्रहण वै पुनःपुन काल पालन त्र क्णुरव्यय कालेन स्वेच्छया शंभु संहारम प्रकोति च यत्किञ्चिदिह तत्सर्वं कालाधीनं न संशयः स एव कालो भगवानीश्वरो ब्रह्मसंनिधः शिवः साक्षाच्च वेदेषु कथ्यते वेदवादिभिः क्षमस्व मे त्वम् त्वन्माया गर्वितस्य च यत्कृतं तद्धया नमस्ते परमेश्वर स नमस्तुभ्यं निर्गुणाय नमो नमः सृष्टिकर्त्रे जसंहर्त्रे पात्रे नानास्वरूपिणे अनन्दगुणराशिस्त्वं वर्णनीयं किमप्यहो नान्दं ब्रह्मादयो जग्मुर्मादृशानां च का कथा नमो नमो ब्रह्ममयाय देवादये शिवायाध च पूर्णमूर्ते विहीनभूम्ने नमो नमो भक्तभयापहन्द्रे इत्येवं स्तुवतस्तत्र प्रेमगद्गदया गिरा अजवत्तस्य सञ्जादम्भाषणं लललल्ललं तेन हृष्टो महादेवस्तं पुनर्नरमस्तकं भगवान् कारयामास यथापूर्वं मुनीश्वराः प्रोवाचमधुरं वाक्यं शिवस्तं सर्वसन्निधौ प्रजापदिपदिर्दक्ष सर्वमान्यो भविष्यसि त्वया यद्रजितं स्तोत्रं मदीयं मत्प्रियं भवेद यस्तोष्यदि प्रदास्यामि तस्मै काममनेन माम् इह भुक्त्वा किल भोगानन्दे मल्लोगमाप्नुयात् मम प्रीतिकरश्चासौ भविष्यदिनसंशयः त्वया यदजवद्वाक्यं कृतं मे खलु सन्निधौ तद्वद्यो मत्समीपे वै करिष्यति नरः तेन हृष्टो भविष्यामि वाञ्छिदं पूरयामि च एवं दत्त्वा वरं शम्भुस्तत्रैवान्तरधीयत सर्वे स्वस्वस्थलं जग्मुर्हर्षिता धर्षितास्तथा दक्षश्च स्वगृहे विप्रा दुःखितस्थितवान् स्वयम् तदादिशिवभक्ता ये ते कुर्वन्ति शिवालये अजवन्निनदं तेन हृष्टो भवति शङ्करः इति सर्वं समाख्यादं दक्ष शापादिकं च यज्ञभङ्गस्य हेतुं च पुनः किं श्रोतुमिच्छथ ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दिश्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दक्षचरितं नाम चतुर्थोऽध्यायः ओ